मुद्गलपुराणं खण्डं तु एकदन्तचरितम् अध्यायं फ़िफ़्टि टु एकदन्तप्रसन्नभावः श्रीगणेशाय नमः गृत्समद उवाच एवं दीनस्वभावेन प्रार्थितो मुनिसत्तमः सनत्कुमार आनन्ददायकं तानुवाचः सनत्कुमार उवाच शृणुते शादयो देव मदासुरविनाशने उपायं कथयिष्यामि तत्कुरुद्ध्वं सुरेश्वराः गणेशं पूजयध्वं वै यूयं सर्वे समादृताः सभाष्यान्तरसंस्थं तं हनिष्यदि मदासुरं सनत्कुमारवाक्यं तच्छ्रुत्वा देवर्षिसप्तमाः ऊचुस्तं प्रणिपत्यादौ भक्ति नम्रात्मकन्धराः देवर्षय ऊचुः केनोपायेन देवेशं गणेशं मुनिसत्तम पूजयाम विशेषेण तं वदत्वं यथा तथम् एवं महायोगी देवैश्च मुनिभिः उवाचाराधनं तेभ्यो गणपत्यो महायशाः एकाक्षरेण तं देवं हृदिष्टं गणनायकं विधिना पूजयध्वं च तुष्टस्तेन भविष्यति ध्यानं तस्य प्रवक्ष्यामि शृणुध्वं सुरसत्तमाः यूय तम तादृशम ध्याषयध निधान येकदुर्बाप hmm. गजवक् महोदरम सिद्धिबुद्धियुक्त मूषकारूमिषं सपाशं वै फरशु कमल शुभम अभय दधतम चसन्न वदनाबुज भक्तेभ्यो वरदं नित्यमभक्तानां निषूदनं एतादृशं हृदि ध्यात्वा सेवध्वं चैकदन्तकं सर्वेषां हृदि संस्थोऽयं बुद्धिप्रेरकभावतः स्वयं बुद्धिपदिः साक्षादात्मा वै सर्वदेहिनां एकशब्दो मदा माया मायादेहरूपाविलासिनी सत्तात्मको दन्तशब्दप्रोक्तस्तत्र न संशयः मायाया धारकोऽयं वै सत्तामात्रेण संस्थितः एकदन्तो गणेशान कथ्यते वेदवादिभिः सर्वसत्ताधरं पूर्णमेकदन्तं गजाननम् सेवध्वं भक्तिभावेन भविष्यदि सदा सुखं सनत्कुमार उक्त्वैवं ययौ योगी स आदराद जय हेरम्भमन्द्रं वै समुच्चार्य मुखेन सह ततो देवगण सर्वे मुनयस्तपसि एका अक्षर विधानेन मासुरादराद। पत्रभक्षा निराहारा वायुभक्षा जलाशिन कंदमूलफलाहारा केजिके केजि बभूवि संस्था ध्यान निष्ठा वै जप कोमपरायणा नात प्रभावे तोषयन गणनायक गदेवर्षशदे चैव सन्धुष्टश्चैकदन्तकः आययौ तान् वरं दातुम् ध्यादस्तैर्यादृशस्तद्धा जगादशतपोयुक्तान्मुनीन् देवान् गजाननः वरं वृणुद तुष्टोऽकम् दास्यामि ब्राह्मणामराः तस्य तद्वचनं श्रुत्वा कृष्टा देवर्षयो भवन् उन्मील्य लोचने देवमपश्यन् सविधस्थितं दृष्ट्वा मूषकसंस्थं तं प्रणे मुस्थे गजाननं मुनयो देवदेवेन्द्रा भक्तियुक्ता अपूजयन् पूजयित्वा यदान्यायं। न्यायं करसं करसम्पुटैः तुष्टुवुश्चैकदन्तं तं भक्तिनम्रात्मकण्ठराः देवर्षय ऊजुः नमस्ते गजवत्राय गणेशाय नमो नमः अनन्तानन्दभोक्त्रे वै ब्रह्मणे ब्रह्मरूपिणे आदिमध्यान्तहीनाय चराचरमयायते ते अनन्दोदरसंस्थाय नाभिशेषाय ते नमः पर्त्रे पात्रे च संहर्त्रे त्रिगुणानामधीश्वर सर्वसत्ताधरायैव निर्गुणाय नमो नमः सिद्धिबुद्धिपदे तुभ्यं सिद्धिबुद्धिप्रदाय च ब्रह्मभूताय देवेश सगुणाय नमो नमः परशुं दधदे तुभ्यं कमलेन प्रशोभिने पाशाभयधरायैव महोदर नमो नमः मूषकारूढदेवाय मूषगध्वजिने नमः आदिपूज्याय सर्वाय सर्वपूज्याय ते नमः गुणसंयुक्तकायाय निर्गुणात्मकमस्तक तयोरभेदरूपेण चैकदन्दाय ते नमः वेदान्तगोचरायैव वेदान्तालभ्यपायते योगाधीशाय वैतुभ्यं नमो नमः वयं धन्या वयं धन्यायैव ब्रह्मभूयमयसाक्षात्प्रत्यक्षं पुरतस्थितः एवं स्तुत्वा प्रहर्षेण न नृ दुर्भक्तिसंयुताः नेत्रान् सरोमाञ्चान् दृष्ट्वा तान् ढुण्डिरब्रवीद एकदन्त उवाच वरं वृणुदेवेषामुनयश्च यथेप्सिदं दास्यामि तं न सन्देहो भवेद्यपि दुर्लभः भवत्कृतं मदीयं सर्वार्थदं भवेद पठदे शृणोदे देवानासिद्धिप्रदं द्विजाकात् शत्रुना शकरं चैवन्दे स्वानन्दप्रदायकं पुत्रपौत्रादिकं सर्वं लभते पाठतो नरः वृक्षमद उवाच एवं तस्य वचश्रुत्वा हर्षयुक्ता सुरर्षयः प्रणम्य चैकदन्तं तमूच्युस्ते भक्तिभावतः सुरर्षय ऊचुः यदि तुष्टोऽसि सर्वेश एकदन्तमः प्रभो यदि देयो वरो नश्चेजहिदुष्टं महासुरम् स्थानभ्रष्टा सुरे शाना कर्मभ्रष्टा मुनीश्वराः कृतास्तेन जगन्नाथ तस्मात् तं जहि विघ्नप त्वदीयां भक्तिमत्यन्तमचलां देहि मानद यया मायाभयं घोरं भविष्यति कदाचन एवमुक्तो गणाधीषष्टधे दिश उवाच तान् अन्तर्धानं ययौ सद्य एक दन्तप्रदापवान् महर्षिभिस्ततो देवैस्थापना गणपस्य च कृता तत्र महाभागैरभूत्क्षेत्रं च वैष्णपम् आग्नेयां दिशि विख्यातं स्वस्वखण्डेषु विद्यते एकदन्तस्य तत्क्षेत्रं सर्वसिद्धिप्रदायकं तत्रैव देवदेवेन्द्रा मुनय संस्थिता बभुः सेवार्थं पूर्णभावेन स्वाधिकारे कलांशदः तस्य सन्दर्शनजन्तुर्लभे दीप्सितमुत्तमं तत्रैव मरणे ब्रह्मप्रहलादात्र न संशयः महिमा गदिदुं पूर्णो वर्षकोडिशदैरपि न शक्यते मया तस्मादुक्तं सारं च सारदः प्रसिद्धिं विशेषेण प्राप्य देवर्षयोमलाः भवन्ति कृतकृत्यास्ते ह्यन्ये नानाजनास्तथा धन्यं जन्म नराणां वै दुष्टो यैरेकदन्तकः जन्ममृत्युभयघ्नश्च स्वेप्सितार्थप्रदप्रभुः ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषद्रीम्गले महापुराणे द्वितीए खंडेकचरी दसन्न भाव नाम पंचाश्त ओं